श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अथ चतुर्दशोऽध्यायः मैत्रे उवाच भृग्वादयस्ते मुनियो लोकानां क्षेमदर्शिनः गोप्तर्यसृति वैणिनां प्रकृत्यसम्मतं वेनमभ्यसिञ्चन् पतिं भुवः श्रुत्वानुपासनगतं वेनमद्युग्रशासनं निलील्यो दश्यवशद्य सर्पत्रस्तायि वाखवः स आरूढनुपस्थानम् अधोष्टविभूतिभिम् अवमेने महाभागानुश्रब्धसंभावितश्वतः एवं मदान्ध उच्चिक्तो निरङ्कुशैव द्विपः पर्यटन् प्रथमास्थाय कम्पयन्नैव रोदसी न यष्टव्यं न सर्वशः वेनस्यापेक्षमुनियो दुर्वृत्तस्य विचेष्टितम् विमृत्य लोकव्यसनं कृपयो च उष्मशत्रिणः अहो अहोभयत प्राप्तं लोकस्य व्यसनं महत् दारुण्योभयतो दीप्तेव तस्करपालयोऽहम् अराजकभयादेश कृतो राजातु दर्हणः ततोऽप्यासीद्भयं त्वद्य कथं स्यास्वस्तिदेहिनाम् अहेरिरुपयपोषपोषकस्याप्यनर्थभिन् वेन प्रकृत्यैव कलसुनीथा गर्भशम्भवः निरूपितप्रजापाल स जिघांसति वै तथापि सान्त्वये मामुं नामस्मान् तत्पातकं सृशेन् तद्विद्वं धीरसंदृप्तो वेणोऽस्माभिः कृतो नृपह यदिनो यदि नो वाचं न ग्रहीष्यत्य धर्मग्रेन् लोकधिकारसन्दग्ध्वं दहिष्याम स्वतेजसाम् एवमध्यवशायैनं मुनियो गूढमन्यवह प्रव्रज्ब्रुवन्वेनं शान्तियिद्वाचसामभि मुनयुचुः निपुवर्य निबोधय तद्यत्ते विज्ञापयामभो आयुः श्रीबलकीर्तीनां तव तातविवर्धनम् धर्म आचरित पुंसां वाङ्मनकायबुद्धिभिः लोकान् विशोकान् वितरत्यं वितरत्यथान् अन्त्यन्तम् असङ्गिनां से मामिनसेद्वीरप्रजानां क्षेमलक्षणः यस्मिन् विनष्टे निवतिरैश्वर्यादवरोहितं सती राजानसाध्वमाद्येभ्य चोरादिभ्य प्रजाृपः रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते यश्च राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः यजते स्वेन धर्मेण जनिर्वर्णाश्रमान्वितैः तस्य राज्ञो महाभागभगवान् भूतभावनः परितुष्यति विश्वात्मा तिष्ठतो निजशासने तस्मिन् तुष्टे किमप्राप्तं जगतामीश्वरेश्वरे लोकाशपाला हि तस्मै ह्रन्ति बलिमारिताः तं सर्वलोकं लोकामर्यज्ञसंग्रहं त्रयीमयं द्रव्यमयं तपोमयम् यज्ञैर्विचित्रैजतो भवायते ते राजन् स्वदेशान् अनुरोद्धुमर्हसि यज्ञेन युष्मद्विषये द्विजातिभिविताय मालेन सुराकला हरेः श्वेष्टा संसुतुष्टा प्रतिशन्ति वाञ्छितं